भजे विशेषसुन्दरं समस्तपापखण्डनम् सभक्तचेत्तरञ्जनं सदैव राममद्वयम् जटाकलापशोभितं समस्तपापनाशकम् सभक्तभीतिभञ्जने भजे ह राममहदयं निजस्वरूपबोधकं कृपाकरं भवापहम् समं शिवं निरञ्जनं भजे ह राममहदयं सप्रपञ्चकल्पितं धरामरूपवास्तवं निराकृतिं निरामयम् भजेह राममद्वयं देशप्रपञ्चनिर्विकल्पनिर्मलं निरामयं चिदेकरूप सन्ततं भजेह रामद्वयं भवाब्धिपोतरूपकं यशे स देहकल्पतं गुणाकरं कृपाकरं भजेह रामद्वयम् महासुवाक्यबोधकै विराजमानवापदै परब्रह्मव्यापकं भजेह रामद्वयं शिवप्रदं सुखप्रदं भवपहं विराजमानदेशिकं भजेह राममद्वयम् भजे हरामद्वयं भजे हरामद्वयम्